मुद्गलपुराणम् खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायम् सिक्स् अहङ्कारपराजयम् श्रीगणेशाय नमः श्रीशिव उवाच ततो देवेन्द्रमुख्याश्च देवामुनिसमन्विताः हर्षयुक्ता विशेषेण मेनिरे च सुरंहतं कालभावं प्रदीक्षन्तस्थितास्तत्रैव विघ्नपम् अभजं स्ते मुदा युक्ता गाणपत्यप्रियात्मकाः धूम्रवर्णस्वयं साक्षाद्रात्रौ स्वप्ने द्विजोत्तमाः जगामदैत्यनाथस्य भयदस्सर्वभावदः सशोकसंयुक्तः प्राप्तः समुद्धाय महासुरान् समानाय्य स्वयं स्वप्नं कथयामास विस्तराद अहमुवाच शङ्खमुख्याशृणुत यत्स्वप्ने दृष्टं भयङ्करं धूम्रवर्णो गणेशानक्रोधयुक्तो बभूवः तस्य क्रोधसमुत्पन्नोऽग्निः सर्वं नगरं च मे दाहयामास शस्त्राण्यस्त्राणि कुण्ठानि चाभवन् पराक्रमविहीनोऽहं कृतस्ते नमहात्मना महात्मना देवाः स्वस्थानगाः सर्वे कृता मुनिगणैः सह अधः स्वल्पेन भविष्यत्यशुभं ध्रुवं तदर्थं यत्नसंयुक्ता भवद्ध्वं दैत्यनायकाः अभिमानवच्रुत्वा तं पुनर्दैत्यनायकाः जगुःखेदसमयुक्ता वचनं हितकारकं दैत्येन्द्र ऊजुः मा कुरुष्व वृद्धा चिन्तामशुभं ते कथम् भवेद वरदानप्रभावेण निर्भयोऽस्य सुरेश्वर स्वप्नः सदा जनानां तु भवत्यत्र न जागृतौ नश्वरसोऽपि तत्र किं भवेद स्वप्ने धनादिकं लब्ध्वा मरणादिकमेव ववा जागर्ति चेत् स्वयं जन्तुर्न किञ्चित् पश्यतीत्यहो एवं हास्यादिकं कृत्वा समाश्वास्या समाश्वास्यासुरोत्तमम् असुरास्वगृहं गत्वा शौचादिकं प्रचक्रिरे अद शृणुदविप्रेन्द्राश्चरितं विघ्नपस्य च अकस्माद्धूम्रवर्णः स ययौ तत्र महाबलः पञ्चयोजनदूरे स नगराद्ैत्यपस्य च संस्थितस्तत्र विप्रेन्द्रो नारतः सहसागदः दृष्ट्वा गणेश्वरं देवं तमागत्य प्रणम्य सः गानं चकार हर्षेण भक्त्या साश्रुप्रलोचनः तमुवाचगणाधीशो गच्छ त्वं दैत्यमन्दिरम् अहङ्कारं वदस्वर्षे वाक्यं सामकरं सामकरमहद देवा देवास्वस्थ नंध जनास्वाचार संयुताकर्तारो मसाद राज्यम महा नगरस्थो महासुरा नो चेदे नज्यामी कैष्या जगद्धि तथेदि गणनाथं स जगाद नारदो मुनिः अहङ्कारासुरं गत्वा कथयामास तद्वजः न श्रुत्वा क्रोध संयुक्तो बभूवेत्तं जगादः गच्छ विघ्नेश्वरं विप्र वदमे मे वचनमगद स देवं धूम्रवर्णं च हनिष्यामि न संशयः तदाज्ञावशगो नाहं भविष्यामि कदाचन एवमुचे तदो विप्रं नारदं दैत्यनायकः नारदो गणनाथं च ययजकाद तद्वचः नारदस्य वच श्रुत्वा क्रोधयुक्तो गजाननः हं हन्तुं मनश्चक्रे दधार दधारविघ्नवः अध नारदविप्रर्षिस्तं प्रणम्य ययौ सुरान् सकलं तेभ्यो वृत्तान्तं हर्षसंयुधः देवास्तं नाम्य सर्वे धूम्रवर्णं समाययुः मुनिभिः शस्त्रसंयुक्तास्तु ते जगुर्वचः आज्ञां कुरु महाभागधूम्रवर्णनमोऽस्तु ते दैत्याैर्योद्धुं च देवेषां स्तदासांस्ते वशे तेषां वचनमाकर्ण्य धूम्रवर्णः प्रतापवान् उवाच तान् स्वभक्तांश्च भक्तवत्सलः धूम्रवर्ण उवाच तिष्ठध्वं देवदेवेश्याः पश्यध्वं कौतुकम् महद हनिष्यामि महादैत्यं मच्छानसपराङ्मुखम् एवमुक्त्वा गणाधीशो मुमोच पाशमुल्बणं स्वशस्त्रं तत्समागत्या नन्दरूपं बभूवः यत्र तत्रासुरान्धृत्वा क्षणात् कण्ठे पपत तद् मृदा दैत्या पुरप्रान्तसंस्था पाशबलार्दिताः हाहाकारस्य सर्वत्र बभूव नगरे तदा दैत्या महादैत्यं कथयामासुरुल्बणं किं स्थितोऽसि महाराजमृदा दैत्या समन्ददः पाश्चैः सर्वत्र संस्थैश्च धूम्रवर्णस्य मानद तेषां वचनमाकर्ण्य दुःखयुक्तो महासुरः जगादसचिवादींश्च वचनं भयसङ्कुलः अहमुवाच अहो कालमुखाद्दैत्यात्स्वप्नं सत्यं बभूवः किं भविष्यदि दैत्येश्च विपरीतं तु दृश्यते इति तस्य वच श्रुत्वा पुत्रौ तादं महात्मनः ऊचतुस्थं भयोद्विग्नं गर्वश्रेष् ौ महासुरौ गर्वश्रेष्ठौ च दुः किं शोचसि महाभागभयं ते न भविष्यति मायायुक्तो धूम्रवर्ण किं करिष्यति ते प्रियम् देवधारी समायादो देवपक्षपरायणः हनिश्यावो न सन्देहः स पश्य पौरुषं एवमुक्त्वा महा गर्वो गर्वसमन्वितः श्रेष्ठप्रणम्य दैत्येन्द्रं तदो युद्धाय जग्मदुः समायुक्तौ शस्त्रवृष्टिं प्रचक्रदुः पाशस्य तेजसा तत्र दग्धास्तेदु समन्तदः तदो भययुधाः सर्वे प्रधानाश्च बभूविरे पाश त्यजः प्रदग्धास्ते प्रपेलुः सर्वतो दिशं ततोऽदिक्रोधसंयुक्तौ स्वङ्गं गृह्य महासुरौ पाशान्विच्छेतु मायातौ महाबलपराक्रमौ तेजसा दग्धदेहौ तौ तथापि खड्गधारया पाशं गृह्य च कर्तुं तौ समुद्योक्तौ बभूवधूः ततः पाशेन सम्बद्धौ रुद्धश्वासौ महासुरौ गतप्राणौ च सङ्ग्रामे बभूवधुर्महर्षयः तदोहाकारवं कृत्वा दैत्या सर्वे भयातुराः प्रपेलुर्दशदिग्देशे गुविला तेजिशम्यां वचह परम जघु क्रूर मृतौ पुत्रौ तव दैत्यपे मृधे तचन मकर्ण्यमूर्चिदसहसा सुर सवधानकदसुशोच धृत्वा धैर्यं तदसोऽपि युद्धार्चं सङ्गतो भवद मुमोच्चास्त्राणि सर्वाणि छेत्तुं महो पाशम् महोज्वलम् पाशस्य त्यजसानि दग्धानि च समन्दधः ततो विभय संयुक्तो विचारमकरो गृती अमोकास्त्रमयं मेधु वरं निष्फलदायुधम् चकारपाशश्चात्यन्तं चित्रं किं वा भविष्यति पलायनपरसर्वैस्वगृहं दैत्यनायकः आगत्य स्वगृहं तत्र समानाय्याब्रवीध्वजः ॐ तत्सदिति श्रीमदा्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे धूम्रवर्णजरिते अहङ्कारपराजयो नाम पञ्चमोऽध्यायः ॐ